मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं ट्वेण्टि फैव् सगरभगीरथचरितं श्रीगणेशाय नमः नरनारायणावो चतुः अम्बरीषस्य पुत्रोऽभूद् यौवनाश्वो परस्मृदः हरितो यौवनाश्वस्य हारितस्तु सुतो भवत कुरुकुत्सस्य पुत्रो भूत्रसद्दस्युत्तदो भवत् अनरण्यस्तस्य पुत्रो हर्यश्वः साधुसम्मतः सम्मतः प्रोक्तः समुद्भवः तस्य पुत्रो भवत् सत्यव्रतो विद्वान् महायशाः सएूत्रिशवाख्यो देहृत्वर्गलोकग तो हरिश्चंद्रसधर्मरायण विश्वामच विघ्नेश ज्ञा गश कोद स्वानन्दे गणनाध सौंदे जगाम महायशा रोहेतस्तस्य पुत्रोऽभूधरितो वै तदो भवद चम्पस्तस्मात् विजयो भरुकस्तदः ततो वृकस्ततो बाहुः सगरस्तस्य चात्मजः सगरस्याभिभार्ये द्वे प्रभाभानुमदी ताभ्यामाराधितो योगी भृगुः परमपावनः पुत्रार्थं स ददौ ताभ्यां वरं पुत्रप्रदं परं षष्टिसहस्रपुत्रा वैवृताश्च प्रभया ततः एकं वंशधरं महामुने भृगो प्रसादयोगेन भानुमत्यां समुद्भवः असमञ्जसनाम वै पुत्रो वंशधरो मुने सदुयोगयुधसर्वान् शिशून् धृत्वा महायशाः शिक्षेप शरयूमध्ये बालो बालविनाशकृतवनं ययौ ततः पित्रा महामुने जीवयित्वा शिशून् सर्वान् योगी मायाबलेन वै तस्य पुत्रः समुत्पन्नों श्युमान् धर्मपरायणः प्रभायां षष्टिसहस्रम् पुत्राणां प्रबभूवः सगरेण ततो यज्ञा अश्वमेधा कृदा बलाद शतसङ्ख्याप्रमाणेन तत्रेन्द्रः क्षुभिदो भवद अन्त्ये यज्ञे समारब्धे मायया सुराधिपः अश्वं सङ्गृह्यपादाले स्थापयामास सन्निधौ कपिलस्य ततस्तत्र पुत्राश्च सगरस्य ये कुपितास्ते सहस्राणां षष्ठिः परमदुर्जयाः अश्वपादं प्रपश्यद्भिर्भूमिमध्ये विचक्षणैः ततस्थैः कनिदा भूमिः सर्वत्र बलसंयुतैः तैस्तु संवर्धितो विप्रसमुद्रो लवणात्मकः तेन सागरनामा भूत्तदारभ्य स्वकर्मणा तमश्वराजं ददृश्युश्चरन्तं कपिलान्तिके तं चौरं सागरात् ज्ञात्वा गन्तुं शस्त्राणि सन्दधुः कपिलक्रोधवह्नौ ते भस्मीभूदा बभूविरे सगराकर्षितस्तेन सप्रतापीपुरन्दरः नारदात्सगरो ज्ञात्वां शुमन्दं पौत्रकं तदः प्रेषयामास तं विप्रं ननामस महाद्विधिः स्तुदसम्पूजितस्तेन कपिलः प्रददौ हयं सङ्गृह्य विप्रसगरं स्वपितामहम् ततश्चकारं यज्ञं सम्पूर्णं त्वश्वमेधकं ययौ राज्येऽभिषिच्याशवनं पौत्रं महायशाः गुरोः प्राप्य महामन्त्रं गणेशं योगशान्दिदं साधयित्वा स योगी बभूव परमद्युदिः अनन्यमनसा देवं गणेशमभजन् नृपः अन्ते स गणपं विप्र ययौ ब्रह्मपरायणः अंशुमान् कपिला चैव ज्ञानं प्राप्य महायशः गणेशमभजन् नित्यं गणपत्यस्वभावतः तस्य पुत्रो दिलीपश्च दिलीपात्तु भगीरथः दिलीपोऽन्यस्य राज्येतं ययौ विघ्नेशमुत्तमम् पदो भगिरथो राजा दिलीपस्तापि दत्सवै पालयामास सम्पूर्णं राज्यं सद्धर्मभावदः ये कदा नारदस्तत्र जगाम नृपदिम्मुने। पूजितस्तेन उवाच नृपं वचनमुत्तमम् नारद उवाच भगीरथमहाभागशृणु मे वचनं हितं तव ब्राह्मणसङ्क्रोधा दग्धाश्च प्रपितामहा विप्रक्रोधेन दग्धा ये गतिस्तेषां अतस्त्वं च महाराज कुरु तेषां हिदं परं स्वर्णदीं त्वं समानीय प्रावयः स्वचताञ्जलैः स्वर्गवासिन एवं ते प्रभविष्यन्ति पूर्वजाः एवमुक्त्वा महायोगी नारदो गणपं स्मरन् स्वर्गं तदो विप्रराजा सन्दुःखितोऽभवद प्रधानेषु स्वकीयं तद्राज्यं त्यक्त्वा वनं ययौ तपःसाराधयामास भगीरथः पूर्णे चैव तं ययौ स्वर्गवाहिनी वरेण चन्दयामास राजानं भक्त्रिसंयुतं पूजयामास स्तुत्वा च विविधैस्तवैः प्रतापवान् जगादासौ भूमिपः स भगीरथः भगीरथ उवाच यदि तुष्ठा महाभागे तदा मे प्रपिता महान् प्रावयस्वमही संस्था सा तथेदि मदीयमुग्रवेगं सन्धारणार्थं महामदे पात्रं पश्यमहाभागागमिष्यामि महीतलं तथेदि स महीपालपूजयाम स शङ्करं वर्षेणैकेन तं शम्भुप्रसन्नो वरदो भवत स्वर्णदीं धारयि स्वत्वं यदि तुष्टोऽसि शङ्कर तथेदि शिव सस्मारस महानदीम् आगतां तां तदा प्राहपदेवीमहीतले धारयिष्यति देवेगं शङ्करः करुणानिधिः स्वर्गङ्गागर्वयुक्ता च तथेदि शिवमस्तके पपादसैव धाराभिः सहस्रेण समन्तदः शिवमस्तकमाप्लाव्यगमिष्यामि रसातलम् यदि सन्धार्य मनसि महावेगयुदाय यौ तस्यागर्वं परिज्ञाय शङ्करेण स्वमायया जडायां गोपिता तत्र बभ्राम वै नदी नान्दं जगाम शम्भोः जडायास्तं नमाम वै तदशिवेन राजार्थे मोजिदा ययौ तत्र जह्हुं महीपालं ददर्श स्वर्गवाहिनी तं तपन्तं तपोघोरं जगाद चलतापसा नोचेत्वं चेत् त्वां प्लावयिष्यामि स जगादनतां यदा तदा सा क्रोधसंयुक्ता प्रावितुं तं समाययौ मागतां समाज्ञाय क्रोधयुक्तो महीपरिः तपो बलेन तां पीत्वा तपसि प्रभुः तदो भगीरथस्तं प्रणनामाधमः प्रार्थितः समुमोचापि स्वोरुम्भित्वा तदो नदीं तस्य पुत्रीत्वमापन्नाजास्नवीतेन कथ्यते पुनः स वेगसंयुक्ता प्लावयामास सागरान् विमानवरमारूढास्ते भगीरथसन्निधौ ते कदा स्वर्गलोके च जलस्पर्शेन तत्क्षणात् राज्ञा भगीरथेनैवं पूजिता स्वर्गवाहिनी पुत्रीभावेन सङ्क्लुप्ता भवद्भागीरथी तदः थोसुक्त भगी प्रतापवा भगीरथ सुदोप्यास छुदो नाम महीपी संस्थाप्यपदे राज्य स यय वन मुतम वसी स विद्वाच योगम गाणे शक मु साधयित्वा स वैराजा गणपत्यो बभूवः अन्धे जगाम गाणे सायुज्यं योगसेवया इदं भगीरदाख्यानं यशृणोति नरोत्तमः पठेद्वा तस्य भो विप्र भुक्तिमुक्तिप्रदं भवेत् ॐ तत्सदिति श्रीमदान्ध्ये पुराणो पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये कण्डे महोदरचरिदे सगरभगीरथचरितं नाम पञ्चविंशतितमोऽध्यायः ओ